त्वारिंशः सर्गः ततस्तु तमसातीरम् रम्यमाश्रित्य राघवः सीतामुद्वीक्ष्य सौमित्रिमिदम् वचनमब्रवीत् इयमद्य सौमित्रे प्रहिता वनवासस्य भद्रन्ते न चोत्कण्ठितुमर्हसि पश्य यथा निलयमायद्भिर्निलीनानि मृगद्विजैः अद्यायोऽध्यातु नगरी राजधानी पितुर्ममा सस्त्री पुंसागतानस्माञ्छोचिष्यति न संशयः अनुरक्ता हि मनुजा राजानम् बहुभिर्गुणैः त्वाम् च माञ्चलनव्याघ्रशत्रुघ्नभरतौ तथा पितरम् चानुशोचामि मातरम् च यशस्विनीम् अपि नान्धौ भवेतान्नौ रुदन्तौ तावभीक्ष्णशः भरतः खलु धर्मात्मा पितरम् मातरम् च मे धर्मार्थकामसहितैर्वाक्यैराश्वासयिष्यति भरतस्यानुशंसत्त्वम् सञ्चिन्त्याहम् पुनः पुनः नानुशोचामि पितरम् मातरम् च महाभुज त्वया कार्यम् न रव्याघ्रमामनुव्रजता अन्वेष्टव्या हि वैदेह्या रक्षणार्थम् सहायता अद्भिरेव हि सौमित्रे वत्स्याम् यद्यनिशामि माम् वन्ये मह्यम् वन्येऽपि विविधे तु सौमित्रिम् सुमन्त्रमपि राघवः अप्रमत्तस्त्वमश्वेषु भव सौम्येत्युवाचः सोऽश्वान् सुमन्त्रः संयम्य सूर्येऽस्तम् समुपागते प्रभूतयवसान् कृत्वा बभूव प्रत्यनन्तरः उपास्यतु शिवाम् सन्ध्याम् दृष्ट्वा रात्रिमुपागताम् रामस्य शयनञ्चक्रे सूतः सौमित्रिणा सह ताम् तमसा तीरे वीक्ष्य वृक्षदलैर्वृताम् रामः सौमित्रिणा सार्धम् सभार्यः संविवेशः सभार्यम् सम्प्रसुप्तम् तु श्रान्तम् सम्प्रेक्ष्य लक्ष्मणः कथयामास सूताय रामस्य विविधान् गुणान् जाग्रतोरेव ताम् रात्रिम् सौमित्रे रुदितोरविः सूतस्य तमसा तीरे रामस्य ब्रुवतो गुणान् गोकुलाकुलतीरायास्तमसाया अवसत्तत्र ताम् रात्रिम् रामः प्रकृतिभिः सह उत्थाय च महातेजाः प्रकृतीस्तानिशाम्य च अब्रवीद्भ्रातरम् रामो लक्ष्मणम् पुण्यलक्ष्मणम् अस्मद्यपेक्षान् सौमित्रे निर्व्यपेक्षान् ग्रहेष्वपि वृक्षमूलेषु संसक्तान् पश्य लक्ष्मणसाम् प्रतम् यथैते नियमम् पौराः कुर्वन्त्यस्मन्निवर्तने अपि प्राणान्यशिष्यन्ति न तु त्यक्ष्यन्ति निश्चयम् यावदेव तु संसुप्तास्तावदेव वयम् लघु कथमारुह्य गच्छामः पन्था नम कुतो भयम् अतो भूयोऽपि नेदानीमिक्ष्वा कुपुरवासिनः स्वपेयुरनुरक्ता मा वृक्षमूलेषु संश्रिताः पौराह्यात्मकृताद्दुःखाद्विप्रमोच्या नृपात्मजैः न तु खल्वात्मना योज्य दुःखेन पुरवासिनः अब्रवील्लक्ष्मणो रामम् साक्षाद्धर्ममिव स्थितम् रोचते मे तथा प्राज्ञप्रमारुह्यतामिति अथ रामोऽब्रवीत् सूतम् शीघ्रम् संयुज्यताम् रथः गमिष्यामि ततोऽरण्यम् गच्छ शीघ्रमितः प्रभो सूतस्ततः सन्त्वरितस्यन्दनम् तैर्हयोत्तमैः योजयित्वा तु रामस्य प्राञ्जलिः प्रत्यवेदयत् अयम् युक्तो महाबाहो रथस्ते रथिनाम् वरा त्वरयारोह भद्रम् ते ससीतः सः लक्ष्मणः तम्स्यन्दनमधिष्ठाय राघवः सपरिच्छदः शीघ्रगामाकुलावर्ताम् तमसामतरन्नदी ससन्तीर्य महाबाहुः श्रीमान् शिवमकण्टकम् पद्यतमहामार्गमभयम् भयदर्शिना मोहनार्थम् तु पौराणाम् सूतम् रामोऽब्रवीद्वचः उदङ्मुखः प्रयाहित्वम् रथमारुह्य सारथे मुहूर्तम् त्वरितम् गत्वा निवर्तयर्थम् पुनः यथा न विद्यः तथा कुरु रामस्य तु वच तथा चक्रे सारथिः प्रत्यागम्य च रामस्य स्यन्दनम् प्रत्यवेदयत् तौ सम्प्रयुक्तम् तु रथम् समास्थितौ तदा ससीतौ रघुवंशवर्धनौ प्रचोदयामास ततस्तु रङ्गमान् सारथिर्येन पथा तपोवनम् ततः समास्थाय शेमद्राणे वाक्यकांडे ष्श